अथ त्रिषष्टितमः सर्गः ततो मूर्ध्नानि पतितम् वानरम् वानरर्षभः दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाचः उत्तिष्ठोत्तिष्ठकस्मात् त्वम् पादयो पतितो मम अभयन्ते प्रदास्यामि सत्यमेवाभिधीयता किम् सम्भ्रमाद्भितम् कृत्स्नम् ब्रूहि यद्वक्तुमर्हसि कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानरा समाश्वासितस्तेन सुग्रीवेण महात्मना उत्थाय समः महा प्राज्ञो वाक्यम् दधिमुखोऽब्रवीत् नैव क्षरजसा राजन्न त्वया न च वालिना वनम् निसृष्टपूर्वम् ते अचिंत मृष्टा भक्ष पिबं चे प्रदर्शनाया चित्व वन पालक म्यचिंत भक्ष वनौकसा शिष्टम विध्य भक्ष तथा निवारे भ्रुकुटिम दर्शय इमे हि संरब्धतरास्तदा तैः सम्प्रदर्शिताः निवार्यम् ते वनात्तस्मात् क्रुद्धैर्वानरपुङ्गवैः ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः संरक्तनयनैः क्रोधाद्धरयः सम्प्रदर्शिताः पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः प्रकृष्टाश्च तदाकामम् देवमार्गम् च दर्शिताः एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि चैव प्रकामन्तैश्च भक्ष्यते एवम् विज्ञाप्यमानन्तम् सुग्रीवम् वानरर्षभम् अपृच्छन्तम् महाप्राज्ञो लक्ष्मणः परवीरः किमयम् वानरो राजन् वनपः प्रत्युपस्थितः किञ्चार्थमभि निर्दिश्य दुःखितो वाक्यमब्रवीत् एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना लक्ष्मणम् प्रत्युवाचेदम् वाक्यम् वाक्यविशारदः आर्यलक्ष्मणसम्प्राहवीरोदभिमुखः कपिः अङ्गदप्रमुखैर्वीरैर्भक्षितम् मधुवानरैः नैषामकृतकार्याणामीदृशस्याद्यतिक्रमः वनम् यदभिपन्नास्ते साधितम् कर्म तद्ध्रुवम् वारयन्तो भृशम् प्राप्ताः पालाजानुभिराहताः तथा न गणितश्चायम् कपिर्दधिमुखो बली पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम् दृष्टा देवी न कार्यसिद्धिर्हनुमतिमतिश्च हरिपुङ्गवे व्यवसायश्च वीर्यम् च श्रुतम् चापि प्रतिष्ठितम् जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा अङ्गदप्रमुखैर्वीरैर्हतम् मधुवनम् किल विचित्य आगतैश्च प्रधृष्यम् तद्धतम् मधुवनम् हितैः धर्शितम् च वनम् कृत्स्नमुपयुक्तम् तु वानरैः पातिता वनपालास्ते तदा जानुभिराहताः एतदर्थमयम् प्राप्तो वक्तुम् मधुरवागिह नाम्नादधिमुखो नाम हरिः प्रख्यातविक्रमः दृष्टा सीता महाबाहोऽसौमित्रे पश्य तत्त्वतः अभिगम्य यथा सर्वे पिबन्ति मधुवानराः न चाप्यदृष्ट्वा वै देहीम् विश्रुताः पुरुषर्षभा वनम् दत्तवरम् दिव्यम् धर्षयेयुर्वनौकसः ततः प्रहृष्टो धर्मात्मा लक्ष्मणः श्रुत्वा कर्णसुखाम् वाणीम् सुग्रीववदनाच्युताम् प्राहृष्यत रामो लक्ष्मणश्च महायशाः श्रुत्वा दधिमुखस्यैवम् सुग्रीवस्तु प्रहृष्य च वनपालम् पुनर्वाक्यम् सुग्रीवः प्रत्यभाषत प्रीतोऽस्मि सोऽहम् यद्भुक्तम् कृतकर्मभिः धर्शितम् मर्शणीयम् च चेष्टितम् कृतकर्मणा गच्छ शीघ्रम् मधुवनम् संरक्ष स्वत्वमेव प्रेषय सर्वां स्तान् हनूमत्प्रमुखान् कपीर् इच्छामि शीघ्रम् हनुमत्प्रधानान् शाखामृगांस्तान् मृगराजदर्पान् प्रष्टुम् कृतार्थान् सह राघवाभ्याम् सीताधिगमे प्रयत्नम् प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वाणराणाम् च राजा अङ्गैः प्रहृष्टैः कार्यसिद्धिम् विदित्वा बाह्वारासन्नामतिमात्रम् नन्द इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिषष्टितमः सर्गः